उर्वश्युवाच अनावृताश्च सर्वास्म देवराजाभिनन्दना गुरुस्थानेन मां वीरनियोक्तुं त्वमिहार्हसि पुत्रा नप्तारो वा तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः तत्प्रसीदनमार्तां विसर्जयितुमर्हसि हृच्छयेन च सन्तप्तम् भक्तां च भजमानदा अर्जुन उवाच शृणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते शृण्वन्तु मे दिशश्चैव विदिशश्च स देवताः यथा कुन्ती च माद्री च शची चैव ममा नघे तथा च हि मेद्यगरीयसी गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते ि मे मातृवत् पूज्या रक्ष्योऽहं पुत्रवत् त्वया वैशम्पायनुवाच पार्थेन उर्वशी क्रोधमूर्च्छिता वेपन्ती भ्रुकुटीवक्रा शशापाथ धनञ्जयम् उर्वश्युवाच तव पित्राभ्यनुज्ञातां स्वयं च गृहमागतां यस्मान्माम् नाभिनन्देथाः कामबाणवशङ्गताम् तस्मात् त्वं नर्तनः पार्थस्त्रीमध्ये मानवर्जितः अपुमानिति विख्यातः शण्ढवद्विचरिष्यसि एवं दत्त्वार्जुने शापं स्फुरदोष्ठीष्वसन्त्यथा पुनः प्रत्यागता क्षिप्रमुर्वशीगृहमात्मनः ततोऽर्जुनस्त्वरमाणश्चित्रसेनमरिन्दमः सम्प्राप्य निवेदयामास तदा चित्रसेनाय पाण्डवः तत्र चैवम् यथा वृत्तम् चैव पुनः पुनः अवेदयच्चक्र चिश तत आनायतन विविते हरिवाहन सांिवा शुभैर्वाक्य स्म्यषत सुपुत्र प्रथाता तया पुत्रेण सत्तम ऋषि धैर्य जिता वैते महाभुज यत्तु दत्तवती शापमुर्वशी तव मानद स चापि तीर्थकृत्तात साधकश्च भविष्यति अज्ञातवासोऽवस्तव्यो भवद्भिर्भूतलेनघ वर्षे त्रयोदशे वीरतत्र क्षपयिष्यसि